गणेशपुराणं क्रीडाखण्डम् अध्यायं तर्टिसिक्स् गृत्समत् उवाच सखयाद्रिपर्वदे देवोऽन्यवसद्गिरिजायुतः स्वगणैर्मुनिभिर्युक्तः पुण्यक्षेत्रे महाबले दिदृक्षुः प्रययौ तत्र ब्रह्मा लोकपितामहः पत्नीद्वयसमायुक्तो देवगन्धर्वकिन्नरैः दृष्टवा तु शङ्करं पूज्य स्वाभिप्रायं न्यवेदयद आकारयामास तदा परमर्षीत् सदा शिवः जमदग्निम् वसिष्ठं च मार्कण्डेयं नारदं कपिलं पुलकं कण्वं विश्वामित्रं त्रिदं द्विधम् आययुः शिवाहुदा अन्ये सर्वे दिदृक्षवः उषः मुहूर्तं ते निष्काश्यप्रारभन्मुखम् त्वरा वन्दोधविस्मृत्यपूजां वैनायकीं शुभां सावित्रीं गृहकार्येषु सक्तां त्यक्त्वा मुनीश्वराः मुप गायत्रीमुपवेश्यैव पुण्याः वाचनं च ते करयित्वाभ्युदयिकं मातृपूजनपूर्वकम् अस्ता पयन्नग्निकुण्डे यावद्वैश्वानरं च ते सावित्री तावदायातारम्भं दृष्ट्वा रुषान्विदा क्रोध क्रोधरक्ताक्षी वीक्ष्य सर्वान्सद सात्रुवाच मनादृत्य योगों सरबो न से ऋषिवाचा मुंती मुखदोज्वाला दग्धु कामचर शाप सा देवुनीूँ भविष्यध नियुक्त निकारा ताँ गायत्री सर्वे यद दे देवा प्रणम्य उच्च प्राथयाम सुत्सुकाी सर्वजननी डलय राइक्य दशुभे जल रमो नदी नदस्वू तथेत्युक्ते देव्या नदीरूपत्वमागताः व्यण्या नाम्ना महेशो भूकृष्णः कृष्णा भवन्नदी तत्तन्नाम्ना बभूवुस्ते सरिथ सर्वदेवताः यत्र पूर्वं विघ्नराजो नार्च्यदे तत्र विघ्ना भवन्येवं शङ्करस्य यथा पुरा पुरत्रय वधे जादा विघ्नास्तस्या प्रभुजनाद ब्रह्मचिन्तां परं प्रापमखविघ्न उपस्थिते मन्निमित्तं सुरा सर्वे धुनीरूपमुपागताः मानां सर्वलोकेषु गमिदखेन कर्मणा सङ्कल्पबाधश्च कथमद्य प्राप्तो दुरत्ययः विघ्नहर्ता जगन्नाथो न स्मृतो न जपार्थितः सर्वेषां चैव यदो मोहः तम् प्रसन्नं करिष्यामि ततो यत्नो भविष्यति एवं यावत् चिन्तयते भ्रमा तावत् सुराङ्गनाः देवान्वै तादृशान् ज्ञात्वा समीयोर्ब्रह्मणोऽधिकं पुलोमजा जगिरीजा चायापि कमलापि च चा। अन्या अपि सर्वास्थाः कमलाननं कथं यत्नसमारम्भिमान्यानो मानिता कथं नापूज्य च कथं विघ्नकर्ता पूर्वं गजाननः त्वयि विस्मरणं चैव न वा स्मारिसुहृकथं किमस्माभिरनुष्ठेयं देवैर्वाजलरूपिभिः एकं यामचरणं देव त्वदृदे कमलोद्भव यदि तासां वज श्रुत्वा ता उवाच यजिष्येकं यथा सर्वं भवेच्छुभं किमस्साध्यं हि भक्तानां सुप्रसन्ने गजानने सर्वा कुरुध्वं तद्भक्तिं सभत्सर्वप्रियं चरेद प्रसादयिष्येहमपि जगदीशं विनायकम् अनादिनिधनं देवं सर्वकारणकारणं येत्योक्तास्तागतादूरं देशं कर्णाटकं शुभं मन्दारमूलं विघ्नेशं स्थित्वा तदीरिताः रामेण स्थापितं पूर्वं वक्रतुण्डे यद्वरैर्विजयीरामोहत्वा राक्षसपुङ्गवान् दशाननं च विख्यातं ययौ पत्न्या निजं पदं ते पुस्तत्र तपोखोरं सर्वास्तात् सुरयोषितः काचिन्नामजपं चक्रे काचिन्मन्द्रजपं तथा काचित् पद्मासनं तस्तौ परमेश्वरम् काचिद्वीरासनगदा निराहारा तथा परा सम्मार्जयन्ति द्वाराणि चत्वराणि गृहाणि च प्रदक्षिणा नमस्कारैः कुर्वन्ति भक्तिमुत्तमं काचिदे गाङ्गुष्टगदा तस्तौ ध्यात्वा विनायकं काचिन्निमील्यनयने स्तोत्राण्येव पठत्तदा बहुकाले व्यधिक्रान्ते न तुतोषविनायकः तदा चिन्तां किं कुर्म इति विह्वलाः तदस्तुमनसां भारान् दोर्वा भारांस्तथा परा समर्प्य पूपु धूपदीपान्नकाञ्चनैः मन्तारपुष्पैरन्याश्च शमीपत्रैरथा पराः न भोवाणीं तत् श्रुत्वा शमीपत्रं विना विभुः न सन्तुष्ये दिदिति तदा सर्व एव शमीदलैः पूपूजुःपरया भक्त्या देवदेवं गजाननं ततः परमकारुण्यात् सुप्रसन्नः शमीदलैः आविराशीत् पुरस्तासां लसत् चारु चतुर्भुजः किरीडकेयूरधरोहारकुण्डलमण्डितः लम्बकर्णो लसद्गण्ढो विषाणद्वयमण्डितः सिद्धिबुद्धियुधश्चाकुवाहनप्रीतवस्त्रवान् सर्वास्तादददृशुर्देवं कोटिसूर्यसमप्रभं निमील्यनयने नेमुर्दण्डवत्पृथिवीतले तुष्टुवुस्थाकरपुडं कृत्वा सौम्यमहाव्रतम् अधिप्रसन्नवदनाः परमानन्दनिर्भराः इति श्रीगणेशपुराणे क्रीड़ाखंडे बालचरिते षिश्तम ओम।